मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं फोर् कामासुरविजयवर्णनम् श्रीगणेशाय नमः आदिशक्रिरुवाच बलिमुख्यान बलिमुख्यानसमागतान् जगादहर्षसंयुक्त कामासुरः प्रतापवान् कामासुर उवाच बले रावणमुख्याश्च वचनं मे हितावहम् शृणुध्वम् नीतितत्त्वज्ञा यदि हृद्यम् भवेत् परम् ब्रह्माण्डम् हि प्रजेष्यामि वरदर्पेण निश्चितम् भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः वरदानस्य माहात्म्यं वृथा भवति चान्यथा न वयं जयसंहीना भविष्यामः कदाचन कामासुरस्य तद्वाक्यम् श्रुत्वा दैत्येन्द्रसप्तमाः हर्षयुक्ता पुनस्तं ते ऊजुः प्राञ्चलयः परम् दैत्ये श ऊजुः महाभाग वयं सर्वे त्वदात्मकाः प्रजेश्यामो महेशेन्द्रान् प्रदावेन प्रभोचते नदे ते पराक्रमस्यैव तुलाम् ब्रह्माण्डमण्डले लभते कोऽपि दैत्येन्द्रस्तत्र शुक्रःसहायकृत ततः सर्वे समागम्य शुक्रम् नीतिविशारदम् प्रणम्या पूज्यतेनैव युधाः सर्वेऽपि निर्ययुः अपारसेनया युक्तश्चतुरङ्गसुशोभया शुशुभे कामसंज्ञोऽसौ तारायुक्तो यथा विधुः नानावाहनगावीराशस्त्रहस्ता द्रुमयुर्युधाः पर्वतानां धरा केचिन्निर्ययूरणदुर्मदाः यथा पाधोनिधिश्चैव सर्वत्र जलरूपदृक् तथा सैन्यं धरायां सङ्ख्याधिकं दृश्यते हि तद बलिरावणमुख्या वै यत्र तिष्ठन्ति शक्तयः नृपाधैः किन्तु सेनाभिर्युद्धम् कर्तुम् क्षमम् भवेत् राजानः शरणम् के जेद्ययुष्टम् च मृदाः परे केजित्यक्त्वा वनम् राज्यम् ययुर्भयसमन्विताः सप्तद्वीप समन्वितं दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ततः पादालमाविश्य शेषम् नागसमन्वितं वशं कृत्वा ययुस्तेऽपि स्वर्गम् देवगणैर्युदम् समागतं महादैत्यैर्युदम् कामासुरं कलम् ज्ञात्वा देवगणाः सर्वे भयभीदा बभूविरे विचार्य गुरुणा सार्धं शङ्करं ते ययुस्ततः त्यक्त्वा राज्यं भयोद्विघ्ना ब्रह्मविष्णुमुखाः सुराः शून्यां दृष्ट्वा मरावतीं चक्रिरे सर्वे कामासुर इन्द्रासने समासीनो दैत्यपैः संवृदो बभौ कामासुरस्तदो दैत्यां स्थाभयामासन्निधौ तदस्तैस् संयुतः सोऽपि प्रजापतिपदं तत्रैव तादृशं दृष्ट्वा ब्रह्मा स नगदो भवत बुभुजे सौ कियत्कालं भोगानाविधान् खलैः विकुण्ठमगमत्सोऽपि दैत्यपैः सुसमावृतः तत्र शून्यं प्रदृश्यैव हर्षयुक्तो बभूवः कामासुरस्वयं रेमे तदो ततो दैत्यगणांसोऽपि जगादहर्षसंयुगः मोहेन मोहिदोऽत्यन्तं गर्वयुक्तो वचः कामासुर उवाच किं मया न इदं दैत्यास्तद्वदेद जयाम्यहं विष्णुमुख्याश्च देवेन्द्रा दुद्रुहुक्लीबावतः न कोऽपि रणभूमौ वै सङ्ग्रामाय समागतः देवेन्द्रायुद्धहीनास्तु भवामो जयशालिनः तदस्थं शम्बरो दैत्यप्राह वैरसमन्विदः प्रेरिदो दैत्यवर्यैश्चासुराणाम् हितकारकः शम्बरासुर उवाच शम्भुम् जयमहाराज महाराजदेवमुख्यैश्च संवृतम् तदा ब्रह्माण्डकस्यैव राजा त्वं तु भविष्यसि न त्वां वरप्रदो देवशिवशृणुवचोहितं स्वधर्मसंयुतं राजन् सर्वेभ्यः सुखदायकम् कर्मणां फलदादृत्वं देवानां कर्मनिर्मितं स्वधर्मस्थं विजानीहि नो चेन्नश्यन्ति देवताः प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया कर्मणत्वं समर्थश्च जातोऽस्यत्र न संशयः वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः भवामस्तमधो शम्भुम् जय त्वं दैत्यपैर्वृतः देवनाथस्वयं शम्भुस्तस्माद्देवान् प्रगृह्य सः शत्रून्नः पश्य दैत्येन्द्र संस्थितः प्रबभूवः सुराश्चासुरकाः प्रोक्ता पश्य वेदेषु मानद शिवो देवमयप्रोक्तकथं दैत्यहितो भवेद कामासुरशम्बरस्य वचश्रुत्वा प्रदाभवान् मोहयुक्तस्वभावेन तद्ध्य मेनेतु शक्तयः दैत्यपैः संवृतः सद्यः सन्नद्धैः शंकरं ययौ समागतं समाज्ञाय शिवश्चिन्तादुरो भवदेवैः सह विचार्येवं दृष्ट्वा दारुणरूपकं कामासुरं पपालाः सौ अरण्ये देवसंयुक्तो यत्र तत्र गुहासु भयभेदस्वभावेन वासं चक्रे सदाशिवः तदकामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महद शैवं हर्षसमायुक्दो दैत्यपैः प्रविवेशः कैलासशिखराजूढकामासुरप्रदा भवान् भोगान् कल्पितसम्भूतान् बुभुजे चासुरैः सह एवं ब्रह्माण्डमुग्रः जित्वा ननन्तः कृतकृत्यमिवात्मानं मेने दैत्येन्द्रनायकः तदो बहौ गते काले पुत्रं शोषणसंज्ञितम् ज्येष्ठम् कैलासनाधं वैचकार चकार भयवर्जितः दुःपूरं स चकारैव विकुण्डाधिपतिम् कलम् कनिष्ठम् कामासुरो दुष्टश्च शक्तयः बलिं सौरस्य लोगस्य चक्रे महासुरः रावणम् शक्तिलोकस्य तथा बलसमन्वितम् शम्भरम् ब्रह्म लोकस्याधिपम् दुष्टम् चकारः इन्द्रलोकस्य नाधं तु महेशं रणदुर्मदम् दुर्मदं, दुर्मदं यमहुल्यां स स्थापयामास निर्भयः एवम् नाना सुरांश्चक्रे स्थापितान् भुवनेषु च स्वयं सर्वसमायुक्त आययौ भूमिमण्डलम् स्वपुरे राज्यमुग्रं स चकारजगदो बलाद स्त्रीमध्यमांसकाद्यैश्च संसकृतः सन्महाबलः भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः न बुबोधगतं कालं यथा कालेन वञ्चितः आत्मानमृताकारं मेनेः स्वमदसंयुधः एवं कामासुरो दुष्टशक्रयः स चकारः चराचरमयं सर्वं स्वाधीनं बलगर्विताः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्धोऽध्यायः ॐ